उग्रसेनं च वृष्णींश्च महाबलसमन्वितः स तत्र विप्रकुरुते जरासन्धः प्रतापवान् एतद्वैरम् कौरवेयजरासन्धस्य माधवे आशासितार्थे राजेन्द्रसंरुरोधविनिर्जितान् पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान् देवश्रेष्ठं महादेवं कृत्तिवासं त्र्यम्बकम् एतत् सर्वं कथितं भरतर्षभा यथा सहतो राजा भीमसेन तच्छृणु इति श्री सभा जरासंध जरासंधवधपर्वण जरासंधयुद्धोद्योगे द्वांशोध्याय